इन्द्र शुद्धो न आ गहि शुद्ध शुद्धाभिरूतिभिः ो मम धिसोम्या इन्द्र शुद्धो शुद्ध शुद्धाभिरूतिभिः शुद्धो रयिन्नि धारय शुद्धो मम धिसोम्या